अथ चतुश्चत्वारिंशत् सर्गः तथा तु तम् समादिश्य भ्रातरम् रघुनन्दनः भवन्धा सिंहतेजाम्बूनदमयत्सरुम् ततस्त्रिविनतम् चापमादायात्मविभूषणम् आबध्यचकपालौ द्वौ जगामोदग्रविक्रमः तम् वन्यराजो राजेन्द्रमापतम् तम् निरीक्ष्य बभूवान्तर्हि तस्त्रासात् पुनः भवत् बद्धासिर्धनुरादाय प्रदुद्रावयतो मृगः तम् स्म पश्यति रूपेण द्योतयन्तमिवाग्रतः अवेक्ष्यावेक्ष्य धावन्तम् धनुष्पाणिर्महावने अतिवृत्तमिवोत्पाताल्लोभयानम् कदाचन शङ्कितम् तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरम् दृश्यमानमदृश्यम् च वनोद्देशेषु केषुचित् छिन्नाभ्रैरिव सम्बीतम् शारदम् चन्द्रमण्डलम् मुहूर्तादेव ददृशे मुहुर्दूरात् प्रकाशते दर्शनादर्शनेनैव सोपाकर्षतराघवम् सदूरमाश्रमस्यास्य मारीचो मृगताम् आसीत् क्रुद्धस्तु काकुत्स्थो विवशस्तेन अथावतस्थे सुश्रान्तश्छायामाश्रित्यशाद्बले सतमुन्मादयामास मृगरूपो निशाचरः मृगैः परिवृतोऽन्यैरदूरात् प्रत्यदृश्यत ग्रहीतु कामम् दृष्ट्वा तम् पुनरेवाभ्यधावत दृष्ट्वा रामो महातेजा स्तम्भन्तुम् कृतनिश्चयः भूयस्तु शरमुद्धृत्य कुपितस्तत्र राघवः सूर्यरश्म्यप्रतीकाशम् ज्वलन्तमरिमर्दनम् सन्धाय चापे विकृष्य बलवद्बली तमेव मृगमुद्दिश्य श्वसन्तमिवपन्नगम् मुमोज्ज्वलितम् दीप्तमस्त्रम् ब्रह्म शरीरम् मृगरूपस्य विनिर्भिद्यशरोत्तमः मारीचस्यैव हृदयम् विभेदाशनिसन्निभः तालमात्रमथोत्प्लुत्यन्यपतत्सभृशातुरः व्यनदद्भैरवम् नादम् धरण्यामल्पजीवितः म्रियमाणस्तु मारीचो जहौ ताम् कृत्रिमान्तनुम् स्मृत्वा तद्वचनम् रक्षो तु लक्ष्मणम् प्रस्थापयेत्सीताम् शून्ये रावणो हरेत् सप्राप्तकालमाज्ञाय चकार च ततस्वनम् सदृशम् राघवस्येवहासीते लक्ष्मणेऽपि च तेन मर्मणि निर्विद्धम् शरेणानुपमेन हि मृगरूपम् तु तत्यक्त्वा राक्षसम् रूपमास्थितः चक्रे ससु मारीचो जीवितम् त्यजन् तम् दृष्ट्वा पतितम् भूमौ राक्षसम् भीमदर्शनम् रामोरुधिरसिक्ताङ्गम् चेष्टमानम् महीतले जगाम मनसा सीताम् लक्ष्मणस्य वचस्मरन् मारीचस्य तु मायैषा पूर्वोक्तम् लक्ष्मणेन तु तत्तथाह्य भवच्चाद्य मारीचोयम् मया हतः आसीते हा। लक्ष्मणेत्येवमाकृष्यतु महास्मनम् ममारराक्षसस्सोऽयम् श्रुत्वा सीता कथम् भवेत् लक्ष्मणश्च महाबाहुः कामवस्थाम् गमिष्यति इति सञ्चिन्त्य धर्मात्मा रामो हृष्टतनूरुहः तत्र रामम् भयन्तीभ्रमाविवेशदिशादजम् राक्षसम् मृगरूपम् तम् हत्वा श्रुत्वा च तत्स्वनम् निहत्यपृशतम् चान्यम् माम् समादाय राघवः परमाणो जनस्थानम् ससाराभिमुखम् तदा इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुश्चत्वारिंशत् सर्गः